इन्द्रसेनेन सहित इन्द्रप्रस्थमगत्तद व्यतीत्य विविधान् देशान् स्वरावांक्षिप्रवाहनः इन्द्रप्रस्थगतम् पार्थमभ्यगच्छज्जनार्दनः स गृहे पितृवद्भ्रात्रा धर्मराजेन पूजितः भीमेन च तनोपश्यत् स्वसारम् प्रीतिमान् पितुः प्रीतः प्रीतेन सुहृदा रेमे सहितस्तदा अर्जुनेन यमाभ्याम् च गुरुवत्पर्युपासितः तम् विश्रान्तम् शुभे देशे क्षणिनम् कल्पमच्युतम् धर्मराजः समागम्यज्ञापयत् स्वप्रयोजनम् युधिष्ठिरवाच प्रार्थितो राजसूयो मेन चासौ केवलेप्सया प्राप्यते येन तत्ते हि विदितम् कृष्ण सर्वशः यस्मिन् सर्वम् सम्भवति यश्च सर्वत्र पूज्यते यश्च सर्वेश्वरो राजा राजसूयम् स विन्दति तम् राजसूयम् सुहृदः कार्यमाहुः समेत्य मे तत्र मे केचिद्धि सौहृदा देव न दोषं परिचक्षते स्वार्थहेतोस्तेतारीप्सन्ते केचिदात्मनि यद्धितम् एवं प्रायाश्च प्रयोजने त्वं तु हेतूनतीत्यैतान् कामक्रोधौ व्युदस्य च परमं यत्क्षमं लोके यथावद्वक्तुमर्हसि इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि वासुदेवागमने त्रयोदशोऽध्यायः